अथ प्रथमाष्टके चतुर्थप्रश्नप्रारम्भः ओ उभदेवा एते प्रजापते सृत्यन्ता देवाश्चासुराश्च दा। इमे इमे देवानघुसो न कला तान् पवित्रेणा पुनात् तान् भवस्यात्रस्य व्यगृह्णात् ये ग्रहाभवन् तत् ग्रहाणाम् ग्रहत्वम् देवता वा एतायजमानस्य गृहे वृक्ष्यन्ते यद्ग्रहा विदुष एते ग्रहा गृह्यन्ते एषा वै भोमस्याहुतिः यदुपाकुंशो सोमेन देवागुस्तर्पयानीति खलु वै सोमेन एते यदुपाकुंशम् जुहोति सोमेनैव तद्देवागुस्तर्पयति यद्ग्रहान् दे। दे दे। दे दे दे जहोति देवा एव तद्देवान् गच्छन्ति नित्यमसान् तेनैवानरूपेणमानस्वर्गम् लोकमेति किंवेतदग्रहासीदित्याहोत्राणीति ते एतदग्र आसीत् मृण्मयानि वा एतान्यासन् तैर्देवानव्यावृतमगच्छन् एतानि दारुमयाणि पात्राण्यपश्यन् तान्यकुर्वता चैर्वैदेव्यावृतमगच्छन् यामयानि पात्राणि भवन्ति या वृतमेवति यानि पात्राणि भवन्ति यानि मुण्मयानिर्लोकमभिलेदी पुणवादिना वदन्ति देवा वै कृष्णमद्रन्न तस्याहेते स्तरासन् इयम् वै वृश्निः रामादित्या आदित्यस्थाल्या चतुष्पदः पशो न लक्ष्मन् यदा दृत्यस्थाले भवति चतुष्पद एव तया पशोजमान इमान् दुहे रास्थाले भवति इन्द्रियमेव तया यजमान इमां दुहे गोत्रमेव दया यजमान इमां दुहे आम् मनुष्यायुरद्रह्स्थाली दुग आयुरेवदया यजमान इमां दुहे स्थाल्या गृह्णाति आयव्येन जुहोति तस्मादन्येन पात्रेण पशोन् भवन्ति अन्येन प्रतिगृह्णन्ति तथो व्यापकमेव तद्यजमानो दद गच्छति युवमो सुराममश्विना नमोता वा सुरेनाशुभस्पति पुत्रमिवश्विमन्य सरस्वते श्रीरहृदञ्जनो राजसनयोमस्मे सुवीरम् न्दे ये सम्भ्रान्तम् यस्मिन्नश्वासभासवृक्षणः प्रजामेषामृष्ठास आहृताः कीलालपे स्वामपृष्ठाय वेधसे हृदामदञ्जनयचारुमग्नये नानाहि वान्देवहितंसदन्तम् आदौ व्यामन्न सुरात्मृष्मि स्वामिषः वामायुंसे स्वाम्योनमाविशन्न भिलक्ष्यजीभिः अहम्धरस्य मनसा शिवेन सो मनोराजानमहवक्षयामि दि श्रुति अशृणमम् पितृणाम् अहम् देवानामलमत्यानाम् ताप्यामिदम् विश्वम्भुवनमो समेति अन्धरावोर्वमपरम् जगेतुम् यस्तेवर्णगायित्र छन्धास्पाशः त्वन्द एतेना वैदे यस्ते देव वरुणकृष्णच्छन्दाप् एतेना वैले यस्ते देव वरुणजगति छन्धा एतेना वैले सोमोभा सोमेन सुभामेतानि भवन्ति एतावन्तोऽपि देवानागोसभाः स एवास्मै सुभान् प्रयच्छन्ति राजा भवति रस्तारूपीपदावदात् इन्द्रागम्णाय च इयम् वाग्निहोत्री इयं वा एतस्य निषेदति यस्याग्निहोत्री निषेदति सा्यति इमामेवास्मा उत्थापयति आयुज्ञपदावदादित्याः आयुरेवास्मिन् दधाति इन्द्राय ब्रह्मति भागम् मित्राय वरुणाय चेत्याः तथा युजरेवैत अवर्तिम् वा एषैतस्य पात्मानम् प्रतिक्षाय निशीलरि यस्याज्ञहातृपरदृष्टानिशीतरि ताम् दुग्धाप्राह्मणाय दद्यात् यस्यान्नाद्यात् अवर्तिमेवान्मात्मानम् प्रतिमुञ्चति दुक्त्वा ददाति न यदृष्ट्वा दक्षिणा दीयते पयप्रविशति यस्याज्ञहात्रम् दुश्यमानस्कन्दतिवसक्ता यदोषीरत्नसरज्जलापः अयो गृहेषु पयो घ्नयासु अयोक्षेषु पयोस्ततन्मयेत्याह अय एवात्मन् गृहेषु पशुषु सत्ते ेवैदात्मादित्यक्षतः आक्षतिहात्रम् यद्दर्वान् स्कन्दति यदपि स्यात् आद्यनातस्य तदेव यादुःखेदृत्य होतव्यम् अधान्याम् दृत्वा पुनर्होतव्यम् ैवार्थस्य निष्करादि यत् चतुर्कन्देदत्वा पुनरेयात् यज्ञम् विच्छिन्द्यात् यत्रैव स्कन्दति तदेवेन पुनर्गृह्णाति तदेव यादृक्म् अथाज्ञाम् दृग्धा पुनर्होदव्यम् अनार्तेनैवार्थ एतस्य यज्ञश्चे यस्यान्तरा खलु वा एषायशो नेरात्मस्मादाय यज्ञो सन्दनोति भस्मापदमपिङ्गामयते निगारत्याहनीयम् तस्याज्ञमनुधृतमो शौर्योभिनिम्रोचति गर्भेण हिरण्यम् प्रबध्य पुरस्तारे अथाग्निम् आथा अथाग्निहोत्रम् यद्धिरण्यम् पुरस्ताद्धरति ज्योतिर्वै हिरण्यम् ज्योतिरेवेण पश्यन्नद्धरति यदग्म् वो रघोहरत्नताग्निहोत्रम् भागधेयेनैवयति ब्राह्मणायुषे उद्धरे ब्राह्मणो वै सर्वा देवताः सर्वाभिरेवेण देवताभिरुद्धरति अग्निहोत्रम् प्रसाद्यासीतमेव हतमनम् लीयते अन्दम् वा एष आत्मना गच्छति अन्धमेष यज्ञस्य गच्छति यस्याज्ञम्रोचति पुनश्च एतस्य यज्ञम् गृह्णाति यस्याज्ञोभिनिम्रोचति आरुणञ्जरन् निर्ववेल तेनैव यज्ञम् निष्क्रीणीते वा एतस्याहवनि योगारभवत्यङ्गाम्यते त्याहनीयम् यस्यात् तथाग्निहोत्रम् पुरस्ताद्धरति एतत् आज्ञाम तदाध्यम् प्रियेणैवैनम् नासमर्थयतिहोत्रम् नैवेम् ब्रवैति ब्रह्महाजयौद्धरेद ब्रह्मवे सर्वा देवदाः सर्वाभिदेवैर्न देवदाः वृद्धरति आजीवः ए रस्मे एवृच्छन्ते व्यच्छरे केसात्मर्थतगो सूर्योब्जेदे उषा केतुनादिनाका पितृन् देवेभ्यः विनतम देवोब्जे गुणसमत्तोत्स्फाय दिप्चन्दिजत्जात्येर्दयाद मदेतेमे वा स्वेति वास्यति एष आत्मा यज्ञस्य गच्छति यस्याज्ञमृद्धामसोर्योभ्युरेति पुनः समन्यजहोति अन्तेनैवान्तस्य निष्करोति मित्रो वा एतस्य यज्ञम् गृह्णाति यस्याज्ञमृद्धामसोर्योभ्युरेति हैरञ्जनम् तेनैव यज्ञम् यस्यात्वायन्त्रे यत्कोपमन्मस्यान्धातव स्यात् आवणीयमुद्वाप्यम् मन्त्रे तत्प्रथमम् यज्ञे अग्निः स्वाद्योदाः जगायिया तिष्ठुपा जगत्या देवेभ्यो हव्यम्बहदप्रजानन्निन्दोभिरेवैस्वाद्योनि कालवत्यम्बदि कालवत्यम्बान्वाहिताग्नेपशवप्रतिष्ठन्ते तयत्तायति तदनुपशवापक्रामन्ति विषेरमस्व सहसुन्नाय देवत्यायेत्याहैरैः रमयनी भ्यामेवे नमो समिन्धे वज्रो वै चक्रम् वज्रो वा एतस्य यत्न्यम् विच्छनत्य तत्रेति पूर्वेणैवास्य यज्ञेन यज्ञमनसन्तनोतिप्रथा देवताः देवतापि सन्तनोति अग्निष्टाकपालम् निर्ववेत् पदेश <Sessimus> कुर्वन्ति यत्रयन्ति ओ दोन्नयन्ते ओदानुशकंसति अद्यत एव यज्ञकं समादधाति यस्य माद्यन्ते आदित्यन्द्रमनम् अतिरिक्तम् वै गौरिवेदम् अतिरिक्तम् यत् शवनस्यादृक्ष्यते अतिरिक्तस्य कुर्वन्ति यस्यैवादित्यस्य कामेनादृक्ष्यते तेनैवेन कामेन समर्थयन्ति गौरिवेदकंसामभवति तेनैव मासवनान् नयन्ति सप्तदश सोमः तेनैव तृतीयमनान् नयन्ति होदश्च मतमनान् नयन्ते होदानुशकंसति मध्यत एव यज्ञो समादधाति यस्येतम् यस्योक्ये दृच्येत रात्रम् यस्यात्रे दृच्यरे तत्त्वष्प्रज्ञानम् यजमानम् वा एतत्पशव आशाह्यन्ति भवति लोकान्दाधारः वास्मै पशोन्ताधारा श्रीविष्टपदेशकुर्वन्ति शिवविष्णो वै देवाना समर्थयन्ति एताविन्द्रः प्रजापदर्पा एष विधायते यद्यज्ञः तत् शक्रावादन्ता पूर्वेणावसृत्या देवता इत्याहो पूर्वापसृतस्य वैश्रेयानि भवन्ति प्रतिपदः देवानामपराजितमायतनम् देवानामेवापराजित आयतने मुखे भवन्तरम् आद्यारे पृथिव्याश्च सर्वस्माद्मोमस्यात् मुख्यम् ेषायद्वेत्याः छन्दसंवेशोपवेशः छन्दोभिरेवर्गोपार्गः खल्वे क्षीरे प्राणापानो मृत्युत्याः प्राणापानो मामाहारोदः संरक्षणतो वेद्ये निधाय सत्वराज्ञयाग्नियम् वै सत्पतोराज्ञी अस्या एव परियाद। लोकाः देवेन लोकेभ्यो भवते ते पुनः षट् सम्पद्यन्ते षट्वार्ध्वः एतस्माद्वर्णम् कृत्वा न्ति आम् वा एते नयन्ति क्षिराणायन्ते च्छन्ति तस्मात् दारो तस्या वाग्ने प्रियातनोः यत्र समर्थयति ्छिद्य श्रीशैरञदाममेवभिशृणोति स्वामञ्जोति स्वामस्य अभिषूयमानस्य प्रियातनो रथक्रामद तत्सर्व्यमभवत् आधारान् इन्द्रो वर्तमान् तस्य वल्कर्परापद न्यभवन्शवी सोमो राजाभिषमानि सोममेव राजानमभिषमानि श्रेण प्रादस्य एकाङ्गान् दक्षिणान् दध्यातेभ्येव पुनः स्वामि गृह्णीयात् यज्ञेनैवज्ञमिच्छतिश्चित्तिः सर्वाभ्यो वा एष देवताभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानमाकुरुते एतावान् खल्वै पुरुषः यावदस्य रिक्तम् सर्ववेदनेन सर्वपृष्ठत् सर्वाभ्य दे सर्वा सर्वा एव देवताभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानम् निष्क्रीणीते अवमानस्वर्जनः पवित्रेण वितर्षणे पुनातुमा पुनन्तु मादेव जनाः पुनन्तु मनो ज्ञातु पवित्रेण पुनाहिमा शुक्रेण देवदीर्त्यत्रवर्तिः अर्गे विदलन्तरा ब्रह्मजेलीमे अवित्वेन सवे च इदम् ब्रह्म प्रेमहे पुनति देव्यागात् यस्यैव नवो वेदपृष्ठा तया मदन्तस्य समाद्येषु कृष्यापदयोरीणाम्भिर्मापुनातु पादप्राणेन शिवयोपृथिवीपयसापयोभिः अदावीत्ययमापुनीताम् सविदृभिः वरिष्ठेत्ते मन्मभि अग्ने दक्षे पुना येन देवापुनदा येनाको दिव्यङ्कुष तेन ब्रह्मणाति सरिदम् तस्मै सरस्वती हिकृ अशभिम्भृतादृशः ब्राह्मणे स्वमृगो हिलम् येन देवाः पवित्रेण आत्मानम् पुनदेसदा येन सहस्रहारेण राजा प्रभृताभिप्रणात्मास्यमानाः पश्यञ्च स्वधा ष्ठन्दमजोद्यमवारुन्धरस्मादर्थमासे देवा इद्यन्तेभ्य क्रियते मनुष्याः अवश्यञ्जमसङ्कृतस्य पोर्णग्रस्वधाम्यीमोद्यमवारुन्धः धान्त्रयीमोर्ध्ये नोर्णग्रस्वधान्तोद्यमवारुन्धदाे देवाः मन्यन्त ततो देवान् तामेव देवाबोध्यमवारुन्धत तान् तेनावरुन्धे पितृभ्यः करोति तामेव पितरबोध्यमवारुन्धत तान् तेनावरुन्धे यामेव मनुष्यावोर्ण्यमवारुन्धत कान्देनावृन्धे दक्षिणादिशव ऊर्जमवारुन्धत कान्देनावृन्धे इत्यादमासुरावोर्जमवारुन्धत कान्देनावृन्धेत्रात्मना रात्रो वा एषा विक्राङ्गे इत्यादर्मास्यानि ेनास्मिन् लोके प्रत्यगच्छत्क्षेरस्मिन् वित्तादित्यपरिवत्सरः चन्द्रमायुदावत्सरः वायुरणसरः तत्संवत्सरमाजमानः संवत्सरेणागस्वस्ति माषास्तीत्या आदित्यमेव तस्माद्वर्णप्रकाशे यत्सरेणागस्वस्ति माषास्तीत्या ेववत्सरे अथवा अस्य वायुश्च अनुवत्सरस्याे दक्षिणाशीलीये नैर्गले वायुमेव तदनुवत्सराः आप्नोति तस्माक्षुणाशीलीये नीयमान एवम् विद्वाश्चा विश्वे देवा समयन्दा दे। ुजङ्गोकपन्न यस्मिन्नग्निः वै एष्वेवेन युजले एकमेव लोकञ्जयति यस्मिन्नग्निः अग्नेरेव सायुज्यम् यदा वै एषदेवेन गृहपतिमाप्नोति यदा संवत्सरस्य गृहपतिमाप्नोति अथसहस्रयाजनमाप्नोति यथा सहस्रयाजनमाप्नोति प्नोति अथाग्निर्भवति यदाग्निर्भवति अथगोद्भवति एषा एतद्वा एतेषामनुभवम् अथो गोपा उत्तराणि श्रेयागम्भवन्ति यद्धे देवाः समनिरन्दाैश्वदेवत्वम् अथादित्यो वरुणगोराजानम् वर्णप्रकासैर स एतल्लोकमजेत् यस्मिन्नादित्यः यद्वर्णप्रभासैर्यजते एतमेव लोकम्जयति यस्मिन् आदित्यः आदित्यस्यैव सायिध्यमुपैति यदादित्यम् वर्णप्रभासे मराजाकं साकमेधैरयजत स एतल्लोकमजयत यस्मिद्वश्चन्द्रमा विभाति यत्साकमेधैर्यजते एतमेव लोकम् जयति यस्मिद्वश्चन्द्रमा विभाति ै सोमो वै चन्द्रमागो साकमेधत्वम्प्रजापदम् पितरम् व्यतिरेज्ञेनायन्तृवः एतमेव रागञ्जयति यस्मिन्रतवः शुभिमेश्चिनगोसराध्ये स एतङ्ग यस्मिन् वायोगायिति वर्षाः संवत्सर प्रजापति प्रजा वैशः इति प्रथमाष्टके चतुर्थः पश्च समाप्तः